नारदपुराणं पूर्वार्थम् अध्यायं 113. एण्ड् तर्टीन् सनातन उवाच शृणु विप्रवक्ष्यामि चतुभ्यास्ते प्रधान्यहं यान्य कृत्वा नरा नार्योऽभीष्टान् कामानवाप्नुयुः चै तत्र मासचतुर्थ्याम् तु वासुदेवस्वरूपिणम् गणपम् सम्य गभ्यर्च्य दत्त्वा काञ्चनदक्षिणाम् विप्रायविष्णुलोकम् तु गच्छेद्देव नमस्कृतः वैशाखस्य चतुर्थ्याम् तु प्रार्थ्यम् सङ्कर्षणाह्वयम् गृहस्तद्विज मुख्येभ्यः शङ्खं दत्त्वा विधानविध प्राप्य लोकं मोददे बहुकल्पकं ज्येष्ठमासचतुर्भ्यां दुःप्रार्च्य प्रत्युम्नरूपिणं फलं मूलं च यूथेभ्यो दत्वा स्वर्गं लभे आषाढस्य चतुर्भ्यां तु सम्प्रपूज्य यदि भ्योल्लाबुपात्राणि गत्वाभीष्टं लभेन्नरः चतुर्मूर्तिव्रतान्येवम् कृत्वा द्वादशवत्सरम् उद्यापनविधानेन कर्तव्यम् फलमिच्छता अन्यज्येष्ठचतुर्भ्याम् तु सती व्रतमनुत्तमम् कृत्वा गणपदेर्माधुर्लोके मोदयेद तत्समम् तथा षाढचतुर्भ्यां दुव्रत मन्यचुभक्तं रथन्तराक्वकल्पस्य ह्यादिभूतं दिनं यदः श्रद्धाभूतेन मनसा गणेशं विधिना नरः पूजयित्वा लभे चापि फलं देवादिदुर्गमं श्रावणस्य चतुर्ध्यां दुजादिचन्द्रोदये मुने गणेशाय प्रदद्या च ह्यर्ख्यम् विधि विदाम्बरः लम्बोदरं चतुर्बाहुं त्रिनेत्रम् रक्तवर्णकम् नानारत्नविभूषाढ्यम् प्रसन्नास्यम् विचिन्तयेद् आवाहनादिभिः सर्वैरुपचारै समर्चयेद् नैवेद्यमोदकम् दद्याद्गणेशप्रीतिदायकम् ेवं व्रतं विधायाध भुक्त्वा मोदकमेव सुखं स्वाप्यान्निशायां तु वेव कृतार्चनः व्रतस्यास्य प्रभावेण कामान् मनसि चिन्तितान् लब्ध्वा लोके परं चापि गणेशपदमाप्नुयाद नानेन सदृशं च अन्यव्रतमस्ति जगत्रये तस्मात् कार्यं प्रयत्नेन सर्वान् कामान् अभीप्सदा अर्थास्मिन्नेव दिवसे दूर्वा गणपतिव्रतं केचिदिच्छन्ति देवर्षे तद्विधानं वदामि ते इमं निर्माय गणपं ताम्रपात्रोपरिस्थितं वेष्टितं रक्तवस्त्रेण सर्वतो भद्रमण्डले पूजये द्रक्तकुसुमै पत्रिकाभिश्च पञ्चभिः बिल्वपत्रमपामार्गं शमीधूर्वहरिप्रिय आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् उपहारं प्रकल्प्या दद्यादर्कं प्रार्थ्य तदत्सम्प्रार्थ्य विघ्नेशमूर्तिं सोपस्करा मुने आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेद कृत्वैवं पञ्चवर्षाणि समुपास्य यदा विधि भुक्त्वेह भोगानखिलान् योगं गणपतेर्व्रजेद अद भाद्रचुर्भ्या बहुलाधे नुसकं पूजनी यत्न स्रगंध यदि तध प्रदक्षिणी शतचेदानदक्तुरे दादु नमस्कृत्य विसर्जय पंचाद शाब्दं वा षोडशाब्दमधापि वा व्रतं कृत्वा समुद्याप्यध्येनं दध्यात्पयश्विनीं प्रभावेण प्रदस्यास्य भुक्त्वा भोगान् मनोरमान् सत्कृतो देवतावृन्दैर्गोलोकं समवाप्नुयात् अथ शुक्रचतुर्ध्यां दुसिद्धवैनायकव्रदम् आवाहनादिभिः सर्वैरुपचारैः समर्चनं एकाग्र मानसो भूत्वाध्याये सिद्धिविनायकम् एकदन्तम् शूर्पकरणम् गजवक्त्रम् चतुर्भुजम् पाशाङ्कुशधरम् देवम् तप्तकाञ्चनसन्निभम् एकविंशतिपत्राणि चैकविंशतिनामभिः समर्पयेद्भक्ति युक्तदस्तानि नामानि वै सुमुखाय शमीपत्रं गणाधीशाय भृङ्गजम् उमापुत्राय बैल्वं तु दुर्वां गजमुखाय च लम्बोदराय बदरीं दत्तूरं हरसूनवे शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिं बीजम् गुहाग्रजाया भामार्गमेघदन्ताय रम्बायदु सिन्दूरम् च दीर्पोत्रे च पत्रजम् सर्वेश्वरायागस्त्यस्य पत्रम् प्रीतिविवर्धनम् दूर्वा युग्मम् ततो गृह्य गन्धपुष्पाक्षतायुर्युदम् पूजाम् निवेदयेद्भक्तियुक्तो मोदक पञ्चकम् आचमय्य नमस्कृत्य विनायकस्य प्रतिमां हैमीं सोपस्करां मुने निवेद ये च गुरवे द्वितेभ्यो दक्षिणां ददेद एवं कृतार्चनो भक्त्या पञ्चवर्षाणि नारद उपास्यलपदे कामानैहिकामुष्मिकान् शुभान् अस्यां च दुर्भ्यां शशिनं न पश्येच्च कदाचन पश्यन् विद्याभिशाप तु लभते नात्र संशयः अध तद्दर्शनाशायमन्ध्रं पौराणिकं पठेद सिंहप्रसेन मम धीत् सिंहो जाम्बवदा कदः सकुमारकमारोदिस्तवह्ये शस्यमन्तकः इष शुक्लचदुर्भ्याम् तु कपर्दिशं विनायकम् पौरुषेण दुसूक्तेन पूजयेदुपचारकैः अकारणान्मुष्टिगद्धांस्तण्डुलान् स कपर्दिकान् विप्रायबडवे बडवे पुष्पार्चितायच गन्धपुष्पार्चिताय च तण्डुलावैश्वदैवत्या हरदैवत्यमिश्रिताः कपर्दिगणनाथोऽस्सौ प्रीयदां तैः समर्पितैः चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृदं स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते पूजये च गणाधीश्यं स्नाता स्त्री समलङ्कृता तदग्रे पूर्णपक्वान्नं विन्यस्येत् करकान्दश समर्प्य देवदेवाय भक्त्या प्रयतमानसा देवो मे प्रीयदामेवमुच्चार्याधसमर्पयेद सुवासिनीभ्यो विप्रेभ्यो यथा कामं च सादरं तदश्चन्द्रोदये रात्रौ दत्त्वार्थं विद्धिपूर्वकं भुञ्जितमिष्टमन्नं च व्रतस्य परिपूर्तये यद्वाक्षीरेण करकमपूर्णं तोयेन वा स पूगाक्षतरत्नाढ्यम् द्विजाय प्रतिपादयेद यदत्कृत्वा व्रतं नारीषोडश द्वादशाब्धकम् उपायनम् विधायाधव्रतमेतद्विसर्जयेद यावज्जीवं तु सौभाग्यवाञ्चया व्रतेनेन सदृश्यं स्त्रीणाम् सौभाग्यदायकम् विद्यते भुवनेष्वन्यतस्मान्नित्यमिति स्थितिः ऊर्ज शुक्लचतुर्भ्यां तु नागव्रतमुदाहृतं प्रादर्व्रतं तु सङ्कल्प्य शेषं चाह्वा मपूर्वैस्तु पूजयेदुपचारकैः क्षीरेणाप्यायनं कुर्यादेदन्नागव्रतं स्मृतम् एवं कृते तु विप्रेन्द्रनृभेर्नागव्रते शुभे विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगा मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वर शप ये देहभक्तेनक्तेना तद्विदीयकम् अयाचितोपवासाभ्याम् तृतीयकचतुर्थके ये वङ्क्रमेण विधिव चत्वार्यब्दानि मानवः समाप्य च तदोऽस्यान्दे प्रदस्नादो महाव्रधि कारयेद्धेमखडितम् भू गणेर्मूषकं रथम् अशकोवर्णकैरेव शुभ्रं चाब्जं सुपत्रकं तस्योपरि खटं स्थाप्य ताम्रपात्रेण संयुतं पूरयेत् तण्डलैः शुभ्रैस्तस्योपरि गणेश्वरं न्यस्येद्वस्त्रयुगाच्छन्नं गन्धाद्यै पूजयेच्छतं नैवेद्यमोदकं कल्प्यं गणेश प्रीयतामिति जागरयषिदमध्याध्यै पुराणाख्यानकैश्चरेत् प्रभादे विमले स्नात्वा होमं कृत्वा विधानसः तिलव्रीह्य वश्वेद शोर्षपाज्यैः सकण्डकैः गणो गणाधिपश्चैव कूष्माण्डस्त्रिपुरान्तकः लम्बोदरैकदं तौज रुक्मदंष्ट्रश्च विघ्नवः ब्रह्मा यमोधवरुणः सोम सूर्यसुदाशनः गन्धमादि परमेष्टीत्येवं षोडशनामभिः प्रणवाद्यार्ङ्गेन् न मोन्धायि प्रत्येकं दहने पुनेद वक्तुन्दे देदिङ्गेदेन बर्मान्ते नष्टयुच्छतं ततो व्याहृदिभिषक्रिया हुत्वा पूर्णाहृदिं चरेद दिक्पालान् पूजयित्वा च ब्राह्मणान् भोजयेत्तदः चतुंशतिसङ्ख्याकान् मोदकैः पायसैस्तथा स वत्सङ्कां तदो दद्यादाचार्याय स दक्षिणाम् अन्येभ्योऽपि यथाशक्ति तदो ददे प्रणम्य दक्षिणीकृत्य बन्धुभिः सह भुञ्जीतस्वयं च प्रीतमानसः एतद् व्रतं नर कृत्वा भुक्त्वा सायुज्यं लभते विष्णोर्गणेशस्य प्रसाददः केचिद् व्रतव्रतं केचिद्वरव्रतं नाम प्राहुरेदस्य नारद विधानमेददेवापि फलं चापीह तत्समम् पौषमासचतुर्थ्याम् तु विघ्नेशम् प्रार्थ्य भक्तिदः विप्रैकम् भोजये चैवं मोदकैर्दक्षिणां दधेद एवम् कृते मुनि भूया व्रदी सम्पत्तिभाजनम् मातकृष्णचतुर्थ्याम् तु सङ्कष्टव्रतमुच्यते तत्रोपवासम् सङ्कल्प्य ब्रदि प्रयतमानसः ततश्चन्द्रोदये प्राप्ते मृन्मयं गणनायकं विधाय विन्यसे पीठे सायुधं च सवासनम् उपचारैषोडशभिस्समभ्यर्च्य विधानदः मोदकञ्चापि नैवेद्यं सगुडं तिलकुट्टकं तदोर्क्यं ता ताम्रजे पात्रे रक्तचन्दनमिश्रितं सखुशं सधूर्वं च पुष्पाक्षदसमन्वितं स शमीपत्रदधि च कृत्वा चन्द्राय दापयेद् गगनार्णवमाणिक्यचन्द्रदाक्षायणी पदे गृहाणार्ख्यमया दत्तं गणेशप्रतिरूपक एवम् दत्त्वा गणेशाय दिव्यार्ख्यं पावनाशनं शक्त्या विप्राग्र्यान् स्वयं भुञ्जीतचाज्ञया एवं कृत्वा व्रतं विप्र सङ्कष्टाख्यं शुभावकं समृद्धो धनधान्यै स्यान् न च सङ्कष्टमाप्नुयाद माकशुक्रचतुर्ध्यां तु दु गौरीव्रतमनुत्तमम् तस्यां तु गौरीसम्पूज्या संयुक्ता योगिनी गणैः नरैस्त्रीभिर्विशेषेण कुन्दपुष्पै सकुङ्कुमैः रक्तसूत्रे रक्तपुष्पैस्तथैवा लक्तकेन च धूपैर्दीपंश्च बलिभे स गुण्ढैर्नार्द्रकेण पयसा पायसेनापि लवणेन च विधवा नार्यस्तथा विप्रा सुशोभना सौभाग्यवृद्धये देयो भोक्तव्यं बन्धुभिः सह इदं गौरीव्रतं विप्रसौभाग्यारोग्यवर्धनम् प्रतिवर्षम् प्रकर्तव्यं नारीभिश्च नरैस्तथा धुण्डिव्रतं परैः प्रोक्तम् कैश्चित् कुण्डव्रतं स्मृतं ललिताव्रतमिस्तन्यैः शान्तिव्रतमधापरैः स्नानं दानं जपो होमः सर्वमस्यां कृतं भवेत् सहस्रगुणितं प्रासादादन्ति नः सदा चतुर्ध्यां फाल्गुणीमासि ढुण्डिराजवृतं शुभं तिलशिष्टैर्द्विजान् भोज्य स्वयं चाष्णीदमानवः गणेशाराधनपरो दान होमप्रभुजनैः तिलैरेव हृदयसिद्धिं प्राप्नुयात् तत्प्रसादः सवर्णं गजवक्त्रं च कृत्वा सम्पूज्य यत्नदः द्विजाग्रियाय प्रदातव्यम् सर्व सम्पत् समृद्धये यस्मिन् कस्मिन् भवेन्मासि चतुर्थी रविवारयुग साम्भारकावा विप्रेन्द्र स विशेषफलप्रदा सर्वासु चतुर्धेषु शुक्लास्व ्यसिता सुज विघ्नेश एव देवेश सम्पूज्यो भक्तितत्परैः इति श्रीबृकन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासचतुर्थीव्रतनिरूपणं नाम त्रयोदशाधिकशततमोऽध्यायः ओम्